मुद्गलपुराणं खण्डं वन् वक्रतुण्डचरितम् अध्यायं फर्टि वन् दम्भासुरराज्याभिषेकः श्रीगणेशाय नमः ब्रह्मोवाच नमस्ते वक्रतुण्डाय गणेशाय महात्मने अनन्दानन्दपाराय विघ्नेशाय नमो नमः नमो भक्तिप्रियायैव भक्तसंरक्षकाय ते अभक्तकामनाशाय सर्वदात्रे नमो नमः निर्गुणाय निरूपाय निर्मलाय गुणात्मने अनन्दाननधाराय सिंहवाहाय ते नमः अनादिरूपकायैव नमः सर्वप्रियङ्करवेदान्तवेद्यदेहाय गजवत्राय ते नमः अनन्दोदरसंस्थाय नानाभोगकराय ते माया धाराय मायाय मोहकाय नमो नमः अमेयशक्तये तुभ्यमनाधाराय दंष्टृणे चतुर्बाहुयुधायैव स्वानन्दपदये नमः सिद्धिबुद्धिप्रदायैव सिद्धिबुद्धिधराय च ब्रह्मभूदाय देवाय विघ्नहर्त्रे नमोऽस्तु वक्रतुण्डप्रसन्नस्त्वं मह्यं देहि तदानख त्वदीयामचलाम्भक्तिं यया बन्धो न विद्यते त्वदात्मया प्रवृतोऽहं तत्र सामध्यमद्भुतं सृष्टौ देहि गणाधीश च मे सदा अहं स्रष्टा च सर्वेषां त्वया प्रोक्तो गजानना अतस्त्वं पुत्रभावेन गृहे मे तिष्ठमायया त्वं साक्षाद् ब्रह्मभूतश्चेद्यदि पुत्रो भविष्यसि तदा कम्बन्धनान्मुक्तो भविष्यामि च राजसाद तव मादापिता स्वामिन् बन्धयुक्तौ कृतौ यदि तदा वेदातिकं सर्वं मिथ्याभूतं भविष्यति नामग्रहणमात्रेण ब्रह्म भूयप्रदो भवान् किं पुनः पुत्रभावेन चेत् स्थास्यसि मे गृहे अन्यच्चलालनं गुर्यां सेवनं पूजनं तथा निरन्तरं प्रपश्येयं भवेयमतुलस्ततः ब्रह्मणो वचनं तस्य श्रुत्वा गणपतिस्वयं जगाद तं महाभागं हर्षयन् सर्वभावविद वक्रतुण्ड उवाच त्वया यत् प्रार्थितं ब्रह्मन् ततस्तु सकलं किल सृष्टिकर्तृत्वसामर्थ्यमद्भुतं ते भविष्यति निर्विघ्नं सर्वकार्येषु मत्स्मृत्या प्रभविष्यति यं यमिच्छसि तं तं त्वं कामं प्राप्स्यसि सर्वदा तव भविष्यामि तारको माययांशदः वाञ्छितं पूरयिष्यामि भक्तिभावेन तोषितः त्वया कृतमिदं स्तोत्रं सर्वदं प्रभविष्यति मम प्रीतिकरं ब्रह्मन् ब्रह्म भूयप्रदं तथा इत्युक्त्वा दक्ष वक्रतुण्डः प्रदापवान् ब्रह्मापि विमना भूत्वा तत्र वै संस्थितो भवत वक्रतुण्डप्रसादेन निर्ममे सकलं जगत् चराचरमयं सर्वं यथा योग्यं चकारः सृष्ट्वा त्रिभुवनं सर्वं कृतकृत्य इवा भवत स्थितस्वसुखनिष्ठः सन् वक्रतुण्डं स संस्मरन् ये कदा वायुवेगेन कम्पितः तस्मात् पुरुषरूपेण दम्भश्च प्रकटो भवत् तत्पुरःपुरुषश्रेष्ठश्च दुर्बाहुधरः कलह गदाचक्रत्रिशूलास्त्र धनुर्बाणधरो बभौ रूपेण तेजसा पूर्णो वीर्येण ह्यदुलः परः महाकायो महाबाहुस्थितः पर्वतसन्निभः तं दृष्ट्वा विस्मितो ब्रह्म पप्रच्छच नरं तदः कस्य त्वं कुत आयाध किं कार्यं तेऽत्र वर्तते पदमे पृच्छदे सर्वं महाबलपराक्रमं धन्योऽसि रूपलावण्ययुक्तः परमशोभनः ब्रह्मणो वच आकर्ण्य मेघगम्भीरया उवाच तं विधा स्मयमान इदं वचः पुरुष उवाच विधेहं त्वां प्रजानामि प्रभावान् प्रभावान्मे च मानद तवाङ्गकम्बसम्भूत मां जानीहि प्रजापते देहि मे नाम योग्यं त्वं पुत्रोऽहं ते जव्रत स्थानं देहि तथा वृत्तिं योगक्षेमकरीं पराम् वचस्तस्य समाकर्ण्यतमूचे पद्मसम्भवः हास्यं कृत्वा महाबाहुप्रीणयन् वाक्यमादराद ब्रह्मोवाच किं मां जानासि पुत्रत्वं दंभेन प्रब्रवीषिरे अतस्त्वं दम्भनामा वै भविष्यसि महाकलः यत्र तत्र गतिस्ते वै भविष्यदि महासुर भोगान्नाविधान् भुङ्क्ष्व यथा रुचि यथा सुखं यवमुक्तो महाबाहुस्तं जगामप्रणम्यसः प्रदक्षिणीकृत्य विधिं क्षिदिमण्डलमादराद तत्रागत्य विचारं स कृतवान् मानसे कलः ब्रह्मणा सत्कृतोऽहं वै तस्य गर्वं हराम्यहं विचार्य सहसादम्भो जगाम शरणं कविं तेनोप तेनोपदिष्टमन्त्रेण ब्रह्माणं समदोषयद ये कपादेन तिष्ठन् सन्निराहारपरायणः तताप तप उग्रम् वै वर्षाणामयुतम् गतम् तस्यैव तपसा सर्वम् व्याकुलम् सचराचरं नष्टादुमशकस्थाने भयभेदम् बभूवः तद् दृष्ट्वा परमाश्चर्यम् ब्रह्मा देवगणैः सह आययौ तं वरं दातुं तपः सा तोषितः प्रभुः काष्ठवत्तं वीक्ष्य विस्मितः कमलासनः जगाद तं महाभागं हर्षयन्निव भाषया वरं वृणुमहाभाग यं यं ईप्सिदं पूरयिष्यामि नात्र कार्याविचारणा ब्रह्मणो वचनं श्रुत्वा दम्भः परमहर्षिदः तं प्रणम्य प्रतुष्ठाव बद्धाञ्चलिपुडो बली दम्भ उवाच नमस्ते सृष्टिकर्त्रे वै सृष्टिपात्रे प्रजापदे सृष्टिहर्त्रे त्रिरूपाय ब्रह्म विष्णुशिवात्मने त्वया तदमिदं सर्वं त्वदाधारं महाप्रभो त्वयि सुप्ते जगन्नष्टं भविष्यदि न चराचरमयो भूत्वा क्रीडसि त्वं पिदामः एकानेकप्रभेदेन त्वं स्थितोऽसि जगत्प्रभो अणुभ्योऽनुतरस्त्वं च महद्भ्यश्च महान् किल तस्त्वां स्तोतुं समर्थः ब्रह्माकारेण संस्थितम् महद्भाग्यं विभो मेद्य येन ते दर्शनं परं प्राप्तं सकलपापघ्नमग्रे शुभकरं तथा यदि प्रसन्नतां यादो यदि देयो वरो महान् तदा मे वाञ्छितं सर्वं पूरयस्व प्रजापदे राज्यं त्रैलोक्यस्य तथा मह्यं देहि पितामः पञ्चभूतात्मकेभ्यश्च मृत्युर्न च कदा भवेद् सङ्ग्रामे मत्समः कश्चिन्नान्यस्यान् मां कुरुप्रभो अखण्डैश्वर्यसंयोक्तमारोग्यादिसमन्वितम् यदि तस्य वच श्रुत्वा ब्रह्मा तं प्रत्युवाचः तपसातोषितस्तस्मै धातुमुत्सुकतां गतः ब्रह्मोवाच त्वया यत् प्रार्थितं दम्भ तत्सर्वं प्रभविष्यति अन्यद्यच्चिन्तितं तत् ते सिद्धरूपं भविष्यति इत्युक्त्वान्तर्दथे ब्रह्मा दम्भः संहर्षितो भवत् स्वगृहं प्रजगामासौ महाबल पराक्रमः नगरं ना शोभनं नाम कारयामास तर्पितः पृथिव्यां सर्वशोभाढ्यं वासं तत्र चकारः तदोदैत्यगणः सर्वे शुक्रेण प्रेरिता मुने आर्ययुस्तत्र दम्भस्य नगरे कर्षिता भृशं शुक्रसमागतस्तत्र मुनिभिर्ब्रह्मवादिभिः दैत्यराज्यं स दम्भाया भवद्धातुं स उद्यतः शुभे लग्ने मुहूर्ते च सोऽभिषेकमकारयत ब्राह्मणैर्दैत्यराजानां राजा दम्भो बभूवः महोत्सवं हर्षितास्ते चक्रुः सर्वे समागताः ृष्टपुष्टजनाकीर्णम् नगरम् शुशुभे भृशम् सर्वे स्वस्वगृहे जक्मुस्तदो हर्षसमन्विताः मुख्याश्च संस्थितास्तत्र देत्याः परमदारुणाः ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषद्रीमन्म उगले महापुराणे प्रथमे खंडे वक्रतुंडचरिते दंभासुर राज्याभिषेको नामच्वांशोध्यां